अग्ने तेजस्मिन् तेजस्वी त्वं देवेषु भुजास्तेजस्वन्तं माहायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुरु दीक्षादे चपाचपसश्च तेजसे जुहोवितेजो विदसि तेजो मामाहासेन्माहन्तेजोहासुषं मामान्देजोहासे इन्द्रौजस्मिन् ओजस्वी त्वं देवेषु भुजा ओजस्वन्दं मामायुष्मन्तं वर्चस्वन्दं मनुष्येषु कुरु ब्रह्मणश्च त्वा स्य चौचसे जुहोम्योजोदस्यो जमाहासेन् मा हमोजोहासिषं मामोजोहासेन् सूर्यभ्राजस्मिन्भाजस्वें देव सुखोदाभ्याजस्वन्तं मामायुष्मन्तं मत्यस्वन्दं मनुष्येषु गुरुभाजोऽस्य त्वाञ्चभ्राजसे जुहोमि सुवर्विदसुवर् मामाहासेन्माहगं सुवरहासिषं मा भागं सुवरहासेन्मयि मेधाम् मय प्रजाम् मयि अग्निस्तेजो दधातु मयि मेधाम् मयि प्रजामयीन्द्र इन्द्रियम् दधातु मयि मेधाम् मयि प्रजामयिषोर्योघ्राजो दधातु वायुर्हिर्ताग्निः प्रस्तोता प्रजापतिः सा बृहस्पतिरुद्गाता विश्वे देवा उपगातारो मरुतः प्रतिहर्ता रन्द्रो निधनं दे देवा प्राणभृतः प्राणद्वे सर्वमध्वर्जुरुपाकुर्वन्गादृग्ध उपागपतिदेवाः दे दे प्राणभृतः प्राणम् मयि दधत्युद्याहयितेव सर्वमात्मं धत्त इडा मदानिशकं सषद्विश्वे देवासोः प्रवाचः पृथिविमाचर्मापाहि मधु मनुष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधु मदीम् देवेभ्यो वाच मुद्रासको ृहं दु गायत्रे नन्दसा प्रवृहं विश्वेखा देवानाहायं वाच उपे मान्दासुदे शुक्रुक्रमाधो नूतना सुमेशेषु शुभाशि शुभे शुभुभा गुहासु शक्परेषु शुक्रासु दे शुक्र शुक्रमाधूमा विशुक्रम् दे शुक्रेण सूर्यस्य लश्मिभिः आस्विन् मुग्रा अचिच्यबुद्धिबोधारासस्य गृहगुम् रूपम् बृहतस्य रोसु दे बृहत् सोमः सोमश्च गाः त्ते सोमादाभ्यन्नामजाग्रवितस्मि ते सोम सोमा यस्वान्देव सोमगायत्रेण छन्दसाग्नेयं वासोऽपि देव सोमत्रेष्टुभे न छन्दसेन्द्रस्य प्रियं वाचो अपि एष्यस्मत्सखा त्वं देव सोमजागते न छन्दसा विश्वेषां देवानाहा प्रियं युः पृथिव्या अध्यमृतमसि प्राणायत्वा इन्द्राणे मे वर्चः कृणताम् वर्चः सोम बृहस्पतिः वर्चो मे विश्वे देवा वर्चो मे सत्तमश्विनाय दे मनुवशद्ब्रह्माणि वै रुदत् परिविश्वानिकाम्या नेमिश्चक्रमिवाभवत् एतं अपान्ना वा अपान्नामथेदं गुह्यैलधा वा मां दाक्रमाधो नो मेत्याहापामेव नाम गुह्येन भिवो वृष्टिमवरुन्धे शुक्रं दे शुक्रेण गृह्णामेत्याहे वा अन्धो लोपैर्यस्य रश्मजो वृष्ट्या ईशदेग्रा अशुच्य ेवैतत्क गुहगुं रूपं वृषभस्य रोचतेत्याहेतद्वा अस्य कगुहगुं रूपं यद्वृष्टिरूपेणैव वृष्टिमवरुन्धेयुक्ते सोमानाभ्यन्नामया दिवेत्याहैष हवे हवेषा हवे ऋग त्रिजोदा सोमायजुहोदि पराजे तस्यायुः प्राणय त्रिजोगुं संगृह्णात्याः प्राणयतु परावधयेत्याहायुरे धत्तेमृतमसि प्राणादत्वे दु हिरण्यमहि नित्यमृतम् वे हिरण्यमायुः प्राणान्द्रे नैवायुरात्मम् धत्ते शतमानम् भवति सदायुः पुरुषः शतेन्द्रिय आयुष्येवेन्द्रिये प्रतिष्ठत्यव उपस्पृशति भेषजम् वा आपो भेषजमेव गुरुते वायुरसि प्राणो <स्ट्राथी> नाम स पितुराधिपत्ये पाणं मेदाश्चक्षुरसि नाम धातुराधिपत्य आयुर्मेदारूपमसि वर्ण नाम तमसि सत्यं नामेन्द्रस्याधिपत्ये क्षत्रं मेधुतमसि भजन्नामपि नामाधिपत्ये वामोदथे नाम गर्भन्धाय त्यायत्तस्य त्वा ज्योतिषावर्विराजमवश्यब्दजा स्थिरो दधास्तवसा कामान। वेष्ठेनां वृष्टित्वं जय कृष्णे देवतये कामानगजमानोऽवरुन्धयाजुलसि प्राणो नामेव्याः प्राणापानावैवावरुन्धय क्षुरसि श्रोत्रं नामेत्याहायुरे वा वरुन्धे रोपमसि वर्णो नामेत्याः क्वजा मे वा वरुन्धरे तमसि सत्यं नामेत्याह क्षत्रमे वा वरुन्धे रोतमसि भुजन्नामेत्याहपशवो वा अवामोदधेना गर्भः पशोने वा वरुन्धरे तावज्वे पुरुषं वरितस्तदे वा वरुन्धरे तस्य त्वा विभोमलित्याहान्तरिक्षं वारिदस्य विभोमान्तरिक्षमेवाजयत्रि सत्त्वाभि ज्योर्वारिदस्य विधर्म दिवमेवाभिजगत्रितस्य त्वा सत्यायत्याह दिशो वारदस्य सत्यं दिश देवाभिजगत्रितस्य त्वा ज्योतिषदित्याः स्वर्गो वेदस्य ज्योतिःसुवर्गमेव लोकमभिजयत्येतावन्तो वेदेव लोकास्तानेवाभि यत् सम्पद्यन् तेन सा खलाभिराडन्नम् देवावैरजज्ञेननावारुं धत तत्परैरवारुं धत तत्पराणां मणत्वङ्गत्वरे गृह्यं ते जदेव यज्ञेननावरुं तेजस्रावध्यं प्रथमं गृह्णाति ममेव तेन लोकमभिजगद्वितीयमन्तरिक्षं तेन द्वितीयमेव तेन यज्जयिमे माल्लोकान् पुनरिमल्लोकं भजवरोहन्तु यत्पूर्वेश्वहस्वितः पराः च गृह्यं दे तस्माभितः पराः च जिमे लोकायदुत्तरेष्वह स्वदौर्वाञ्च गृह्यं दे तस्मादमुदौर्वाञ्च मनुष्या उपदेवं दे ब्रह्मवादिनो वजन्ति भवन्त्योषलो मनुष्याणामन्नं प्रजापदिं प्रजा प्रजायं दजिति पदानं विज्यद्ग्रन्हात्यभ्यस्त्वधेभ्यो च तस्मादभ्य ओषधम्भवन्ति यद्ग्रन्हाद्योषधेभ्यस्त्वा प्रजाभ्यो गृह्णामे च तस्मादोषध नोमनुष्याणामन्नं यद्ग्रन्थाय प्रजाभ्यस्त्वा प्रजा च तततनुजज्ञोऽसृजत यज्ञम् छन्दायुम् सिते विश्वम् व्यग्राहन् स्वसुराननु यज्ञोपाह कामद्यज्ञम् छन्दायुम् सिते देवाहमन्यन्तामेव इदमभो अनयद्वयज्ञस्मय जिले प्रजापतिमुपाधावन् सोऽ प्रजापतिच्छन्दसां वीर्यमादाय तद्वः प्रदाः स्यामे दिश्छन्दसां वीर्यमादायतरेभ्यः प्रायच्छत्तजनुन्दायस्य वान्दागुंशज्ञस्ततो देवा अभवन्परासुरा ये पञ्छन्दसां वीर्यं वेदाश्रादयास्तु श्रौषज्ञामहेवषग्गानो भवत्यात्मना भव दिव्यं भवादि नो वदन्ति कस्मैकमद्भर्जुराश्रावृन्दसां वेर्यादे छन्दसां वैर्यमाश्रमजामेषो यो वेदस वेर्येदेवरच्चति यत्किञ्चार्चति जलेन्द्रो वृक्रमहन्न मेभ्यं तद्यपदमेभ्यं दलकस्मादे सङ्ग्यस्थातोरित्या हरिन्द्रस्त वा येषायज्ञाधनोर्यज्ञस्तामेव त्यजम् द्विजदेवम् वेदोपेनैयज्ञानमते आयुन्दा अग्ने हविषानुषाणो घृतप्रदेको धृतजो निरधिम् वेद्वामधारिगव्यम् विदेव पुत्रमतिरक्षतादिमम् आवृष्टदेवानेतद्यजमानोऽज्ञभ्यान्यजेन यो श्रितम् वेत्याधान्यद्रामपृथमवेत्या दुर्द्रा अग्ने हविषजुषाणयत्यपृथमवैष्यञ्जुह यालाहुत्यैवैनौ शमयतिनातिमार्क्षति यजमानो यत्कुशे तमप्रति तम् मयुजेन यमस्य मलिनाचरामि इहैव सन्निरवदनेतदेतदग्ने अनृणो भवामि विश्वलाभविश्वलाभस्य द्वासञ्जुहादेको हुतादेकः समसनादेकः येन सदःसहो वरे एण्यम् यन्नभसा पुरः सद्यस्थानो अभिरक्षतो गृहाणामसमर्थे बहवो नो गृहासन् सत्वन्नभसस्व नवोर्जन् हि भद्रजा पुनर्मा नष्टमाकृथे पुनर्मा रजमाकृथे देवसग्रस्थानसहस्रकोषस्य शिषे राजस्पोषकम् सुवेदौ संवत्सरेणाय स्वस्त्यम् राज्ञर्वामिकुसेदं बाले तद्यमस्य प्रजायाद्रीपमध्यमेनकुसेतमप्रजेत्तं मनेजपौषदेहैव ष्टारमुपस्रोदारमनुष्ठा गिष्टाभोत्तेन गच्छतेर्वा उपभ्रष्टा वायुर्वोतादित्योनुख्यातान् यदेवं विद्वान् यजते सममुष्मिन् लोगिष्टाभोत्तेन गच्छते यन् नो न भसा पुरैत्याह अग्निर्वेण भसा पुरोग्निमेव ददाहि तन्मे गोपालयि सत्वं नो नसस्पदयित्याह वायुर्वेण भसस्व जर्वायुमेव तन्मे गोपालय ज्ञस्थानद्यहासो वा आदित्यो देवः सद्यस्थान आदित्यमेव तैल्युवानम् परिबोधता न क्रेकम् ते शलतप्रियेण मानस्याच्चधनुषा सुभागा राजस्पोषेण नमो महिम् न अनुमन्यस्व सुयजा गजामजुष्टम् देवानामिदमस्तु हव्यम् देवानामेष उपगाह आसेदपाङ्ग्यर्भपोषधेषु न्यक्तः सोमस्य द्रग्समवृणेदपोषामिहन्नद्रिरभवत्तदेषाम् पिता वत्सायाम् बलिरग्जानाम् अथो पितामहताङ्ग्यगराणाम् मरत्सो जराजुप्रदुभक्तेष आमिक्षामस्तु हृदमस्य रतः त्वाङ्गावो व्रणतराज्यायत्वागुम्भवन्द मरुतः स्वर्गाः वष्मण्क्षत्रस्य गगुभश्रिजाणस्तदो न उग्रो विभजामसूनि व्यग् वशुना यज तेजस्यैतानि न क्रियम् देश हत्रेष मृद्धेन यज तेजस्यैतानि क्रियन्ते र्यो देवोदिभ्यो धाता क्षत्राय वायुः प्रजाभ्यः बृहस्पतिस्त्वा प्रजापतयेज्यो दुष्पदेन्दुहोतो यस्यास्तेहनितो गर्भो योगुहिरन्य अङ्कान्यः कृदायस्येतान्दये समजेगमम् आवर्तनवर्तयनिवर्तनवर्तयेन्द्रमर्दबुद ध्योम्याश्च तस्य प्रतिशस्ताभिरावत्तया पुनः विमादरम् च पुत्रम् च विगर्भम् च जरायु च मह्यस्ते अस्तु वायुगे पुरुद्रप्सो विश्वरो वयम् दुःपवमानोऽधीर आनञ्ज किलकपदे द्विपदे द्विपदे चतुष्पदे पञ्चपदे षट्पदे सप्तपद्यष्टापदे भुवनानुप्रभृता विस्वाहापृथिमे च न धिम यज्ञम्यमेक्षतान् विप्रजान्माफले मतिः इदम्बा मास्ये हविः प्रियमिन्द्र बृहस्पति ऊद्धम् वदश्च सस्यते अयम् माम् परिषिच्यते सोम इन्द्रा बृहस्पति चारुर्मदाय वीतदे अस्मे इन्द्रा बृहस्पतिरयम् धत्तकम् शतग्णम् अश्वावन्तकम् सहस्रिणम् बृहस्पतिर्नः परिपातु पश्चादुतोत्तरस्मादधराधघायोः इन्द्रः पुरस्तादुगमद्धतो न सखा सखेभ्यो वरिवह्णोतु ोदासो अग्ने भामासु च सुचयश्चनन्ति तुलिम् रक्षासो दिव्यानमग्वा विनामनम् विधिषता रुजन्तः त्वामग्ने मानुषे रेण दे विचोहरातम् विभिचिकम् रत्नधातमम् गुहासन्तगो सुभगविश्वदरिसदन्तु विष्मनसगो सुजयम् स नः पूर्णेन धाता प्रजाया उदरायलीशे धाते यदम् विश्वम् भुवनम् धाता पुत्रे जमाना यदाता ता तस्मापुहव्यम् श्रतवद्विधेम धाता ददातु नो रयुम् राजेञ्जीवादुमक्षिताम् भयम् देवस्य धेमहि सुमतिकम् सत्यराधसः ददातु दासुषेवसो दा निप्रजा कामायमेषे दुरोणे तस्मै देवा अमृताः संयन्ताम् विश्वे देवासो अदितिः सजोषाः अनुनोद्यानुमतिर्यज्ञम् देवेषु मन्यताम् अग्न्यश्च हविजवाहनो भवताम् दासु शेवयः अन्युदनुमते त्वम् मन्यासे सञ्चनः कृति द्वेदक्षालन हि नु प्रण आयोगम् शितारिशः अनुमन्यतामनुमन्यमाना प्रजावन्तीयमाणम् तस्यै भयगम् हेतसि तस्य भोम सा नो देवी सुखवासम् मयच्छतु यस्या निरम् प्रदर्शयद्विरोचते अनुमतिम् प्रतिघोषम् चायवः यस्य उपस्थपूर्वम् तरे देवी सुख मयच्छतु कामहगम् सुभवागम् सुष्ठुदेहुवे शृणो तुभगाबोध पुमना श्रेव्यत्वपस्योत्स्याच्छिद्यमानजा ददातु वेदगुम् शतलाय जा मुख्यम् यास्ते रागेषु सु मदय सुदासि दासु क्षेमसोनि ता धर्म गुहो महगुः सुभगाम् विद्मनापशमस्मिन् जज्ञे सुराञ्जो हवीमि सानो ददातुश्रवणम् विधृणान् दस्यास्ते देवि हविषा कुहोर्देवानामृतस्य वद्देहव्यानो अस्य हविषश्चिकेतु सन्दाशुषे किरतु भोरि वामगौ राजस्वशञ्चि गीदुषे दधातु